तेत्त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः तान्पाद्य मधुपर्कार्हान् गवार्हान् सत्कृतिम् गतान् प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि उवाच चैतान् राजासो स्वागतम् वो स्विति प्रभुः मौनमासीत्तदापार्थ भीमयोर्जनमे जय तेषाम् मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत् वक्तुम् नायाति राजेन्द्र एतयोर्नियमस्थयोः अर्वाङ्निसीथान् परतस्त्वया परतस्त्वयासार्धं वदिष्यतः यज्ञागारे स्थापयित्वा राजा राजगृहम् गतः ततोर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता तस्य ह्येतद्व्रतम् राजन् बभूव भुवि स्नातकान् ब्राह्मणान् प्राप्तान् क्षुत्वा स समितिञ्जयः अत्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः उपतस्थे जरासंधो विस्मितश्चा भवत्तदा ते तु दृष्ट्वैव जरासंधं जरासन्धम् ननर्षभाः इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम स्वस्त्यस्तु कुशलम् राजन्निति तत्र व्यवस्थिताः तम् नृपम् नृपशार्दूल प्रेक्षमाणाः परस्परम् तानब्रवीज्जरासन्धस्तथा पाण्डवयादवान् हास्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् अधोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः तानुवाच जरासन्धः सत्यसन्धो नराधिपः विगर्ह कौरव्या वेशग्रहण वैकृता न स्नातक्रता बहिर्माल्यालपनातीलोकेद् मम सर्वश के, के पुष्पवत भुजेज्या्यातलक्षण बिभ्रत क्षात्रमोज ब्राह्मण्यं प्रतिथ एवं विरागवसना बहिर्माल्यालना